तान् विक्रमेण जित्वे मामखिलां भुङ्क्ष्वमेदिनीम् अतो नान्यं प्रपश्यामि कार्योपायं जनाधिप वैशम्पायनुवाच श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने त्वयि इदं वचनमीदृशम् भूय एव भीष्मश्च द्रोणो विदुर एव च युवां च कुरु बुद्धिं भवेद्यानः सुखोदया तत आनायतान् सर्वान् मन्त्रिणः सुमहायशाः धृतराष्ट्रो महाराज मन्त्रयामा इति श्रीमहाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि धृतराष्ट्रमन्त्रणे एकाधिकद्विशततमोऽध्यायः